राधा भगिनी भवती वदति वा सरस्वती बन्धना आम् सरस्वती नमस्तु विद्यारम्भम् करिष्यामि सिद्धे भवतु मे सदा धन्यवादाः नमो नमः धन्यवादं सर्वेषां स्वागतम् वयं द्वितीयाविभक्तिविषये एव अध्ययनं कुर्मः अद्यदिने अपि वाक्यानि वदामि सर्वे कृपया शृण्वन्तु अहम् अहं छात्रः अस्मि अहम् अवधानेन सर्वे शृण्वन्तु कृपया अहं छात्रः अस्मि पुलिंगे की चिंते अहम छात्र अस् शिक्षक माठयती शिक्षक माठयती अहम छात्र अस् शिक्षक माठयती भात्र अस् अस्ति. छात्र अस् शिक्षक पाठय शिक्षक पाठयती अस्मि, छात्र अस् शिक्षक भवान भात्र अस्ति. भवन्तं पाठयति भवति छात्रा अस्ति भवति छात्रा अस्ति भवती छात्रा अस्ति शिक्षकः पाठयति शिक्षकः पाठयति नौ यू आर् गोयिङ्ग् टु टेल् मी त्री पेर्स् वन्स् एगेन् ऐ एम् रिपीटिङ्ग् पुनः एकवारं वदामि अहं छात्रः अस्मि शिक्षकः मां पाठयति अहं छात्रः अस्मि शिक्षकः मां पाठयति भवान् छात्रः अस्ति शिक्षकः भवन्तं पाठयति भवती छात्रा अस्ति शिक्षकः भवतीं पाठयति ते आर् थ्री पेयर्स् हिडन् इन् दि मेनि सेण्टेन्सेस् केन् यू ऐडेण्टिफै केन् एनिबडी टेल् मी एनिबडी केन् अन् यू केन् ऐप् वदतु न एकवारं वाक्यानि वदामि सर्वे अवधानेन शृण्वन्तु अहं छात्रः अस्मि शिक्षकः मां पाठयति अहं छात्रः अस्मि शिक्षकः मां पाठयति भवान् छात्रः अस्ति भवान छात्र अस् शिक्षक शिक्षक छात्रा शिक्षक पाठय इंमतु कन्मिटू which three pairs are formed here aham man bhavan bhavantam bhavati bhavati hah aham mam bhavan bhavantam bhavati bhavati aham prathama vibhakti िंगु सामभक् त्रिषु लिंगु सवान पुलिंगी प्रथमा विभक्तिी द्वितियालिंगी प्रथमा विभक्ति द्वितीया विभक्ति गहे वैम द्वितीया विभक् वृषव सात तानी, तत, तानि तत, तत एवं प्रथमा विभक्ति द्वितीया विभक्ति समान एव एतत् एतत् कः कं का कां किं किम् एव वयं पठितवन्तः तथैव बहुवचनान्तरूपाणि सः यदि भवति चेत् तस्य बहुवचनान्तरूपमस्ति ते प्रथमाविभक्ति तं तान् द्वितीया विभक्ति सा ताः प्रथमा विभक्ति तां ताः द्वितीया विभक्ति एषः एते प्रथमा विभक्ति एतम् एतान् द्वितीया विभक्ति एषा एताः प्रथमा विभक्ति एताम् एताः द्वितीया विभक्ति तत् तानि तत् तानि नपुंसकलिङ्गि प्रथमा विभक्ति द्वितीया विभक्ति प्रश्नार्थ यदि पश्यामः चेत् इति प्रथमास्ते नमो नमः स्वागतं नमो नमः क्लास् ऐ विल् बीण्डिङ्ग् बेनि सारी एवं वा अत्र शृणोमि अहं प्रशानोमि धन्यवादपि अस्तु चिन्ता मास्तु अस्तु क्षम्यतां क्षम्यताम् अस्तु पुल्लिङ्गे कः के प्रथमा विभक्ति कं कान् द्वितीया विभक्ति तथैव श्रीलिङ्गी का काः श्रीलिङ्गी प्रथमाविभक्ति कां काः श्रीलिङ्गी द्वितीया विभक्ति तथैव किं कानि किं कानि प्रथमाविभक्ति द्वितीयाविभक्ति समान एव टुडे विक्स्टेण्ड् फर्दर् फार् अहम् अहं माम् अहं प्रथमाविभक्ति मां द्वितीया विभक्ति भवान् प्रथमाविभक्ति भवन्तं द्वितीया विभक्ति भवती प्रथमाविभक्ति श्रीलिङ्गे भवतिम् इति द्वितीया विभक्ति स्पष्टमस्ति सर्वेषां कृते यस् नोष्टम् एकवचनान्तरूपं तथैव अहम् इति एकवचनान्तरूपं प्रथमा विभक्ति न यु आर् गोयिङ्ग् टु टेल् मी इफ् हेण्ड् से अहम् छात्रः अस्मि कम्प्लीट् सेण्टेन्स् वयं वयत्राः वयं छात्राः स्मः न इफ् एम् सै अहं छात्रः अस्मि शिक्षकः मां पाठयति The, see, uh, the tables are there. We are going to see the tables also. But this is just a spoken source tool. That's why we are making practice in oral form. Later on, we will see the table. We will repeat the sentence again and again. Then there are exercises also. We'll do that. But just try to understand. Try to memorize. Try to listen to what I'm saying. Aham chhatrahasne shikshakha maam pathayati. वयं छात्राः स्मः शिक्षकः वदतु अस्मान् पाठयति शिक्षकः अस्मान् पाठयति तत्र शिक्षकः एकः एव अस्ति शिक्षकः तु एकः एव अस्ति शिक्षकः पाठयति शिक्षकः पाठयति किन्तु अहम् इति वदामः चेत् तत्र भवति अहं छात्रः अस्मि शिक्षकः मां पाठयति वयं छात्राः स्मः शिक्षकः अस्मान् पाठयति सो न वट् इस् दि टेबल् जस्ट् ब्रिङ्ग् इन् फ्रण्ट् आफ़् युर् ऐसैट् अहं वयं माम् कमोण्ट् टेल्मि मास्मान् अस्मान् माम् अस्मान् अहं वयम् माम् अस्मान् एकवारं वदतु श्रमणि भगिनी वदतु आं भगिनी अहम् एकवचनं वयं बहुवचनं प्रथमाविभक्ति द्वितीया विभक्ति माम् एकवचनम् अस्मान् बहुवचनम् बहु सम्यक् इदानीम् अवश्य महोदये भवान् वदति वा भवान् इस... वयं प्रथमविभागे वयं बाहुवचनं प्रथमविभागति सम्यक् मां द्वितीया मां द्विवचनं द्विवचनम् एक एकवचनं द्वितीयाविभाक्ति अस्मान् अस् द्वितीयाविभाक्ति बहुवचनम् अस्मान् बहुवचनम् अस्मान् बहु सम्यक् उत्तमम् इदानीम् अनिता भगिनी भवती वाक्यानि रचयति अहं वयं माम् अस्मान् अहम् अहं गच्छामि सम्यक् मात्रा मां गमयसि किम किं किं वक्तुमिच्छति भवती ओके तत्र ओके मम माता मम माता ओके माता मां प्रेषयति प्रेषय अस्तु अहम् अहं स्वाधिकालं दर्श पाठशालां प्रेषयति सम्यक् ओके मां सो वेन् यू से मां तत्र बोधः किं जायते तत्र बोधः कः अस्ति तत्र किमर्थगमनं भवति माम् इति द्वितीयान्तपदं पश्यतु अहम् अहं बालिका अस्मि अहं चित्रं पश्यामि तत्र चित्रमिति द्वितीयान्तपदं तथैव अहम् एकवचने वयं बहुवचनान्तपदं मां द्वितीयाविभक्ति एकवचनान्तपदम् अस्मान् इति द्वितीयाविभक्ति बहुवचनान्तपदम् अस्तु इदानीम् अग्रे वदतु अहं पायसं खादामि माता मां पायसं दद पुनः एकवारं वदतु माता मां पायसं ददति हा तत्र किं भवति ददति इव न कृपया ददति इति दा धातोः कृते भगिनी चतुर्थी आगच्छति दानार्थे चतुर्थी इति अस्ति हा भवान् भवती एवं वदतु मम माता मां भोजयति मा खादयति शी इस् पीडिङ्ग् यू लैक् देट् ओके जस्ट् यू वाट् एवर् यू वाु इट् अण्ड् देट् केन्स् इट् बिकम्स् द्वितीयान्तपदं कर्मपदं द्वितीयान्तपदं हा वदतु न श्रूयते सम्यक् ऐ डोट् ऐ काण्ट् हियर्ली अन्यैः श्रूयते वा अन्यैः सम्यक् श्रूयते अनिता भगिनी अनन्तरं पुनः एकवारं वदतु परन्तु भवती यत् उक्तवती तत् सम्यक् एव अस्ति अस्तु अस्तु सो दिस् इस् दि वान् पेर् अहं वयं माम् अस्मान् नौ लेट् गो फोर् ङ्ग् इस् दर् बट् बिफोर् देट् ओरल् वर्क् पश्यन्तु भवान् छात्रः अस्ति शिक्षकः भवन्तं पाठयति सो दिस् इस् भवान् प्रथमाविभक्ति एकवचनान्तपदं भवन्तं द्वितीया विभक्ति एकवचनान्तपदम् भवान् छात्रः अस्ति भवन्तः छात्राः सन्ति भवन्तः छात्राः सन्ति पुल्लिङ्गे भवन्तः छात्राः सन्ति नौ द फोर्त् सेण्टेन्स् बिकम्स् शिक्षकः भवतः पाठयति शिक्षकः भवतः पाठयति इत्युक्ते भवन्तः इति प्रथमा प्रथमाविभक्त्यान्तबहुवचनान्तपदस्य भवतः इति द्वितीयाविभक्त्यान्तपदं बहुवचनरूपे सिद्ध्यति भवन्तः भवतः भवान भवन्तम् ओके सो वर्टिकलि हौ से प्रथमा विभक्ति, विभक्ति भवान. भवन्तः एकवचने बहुवचने द्वितीया विभक्ति एकवचने भवन्तं बहुवचने भवतः भवान् भवन्तः भवन्तं भवतः शैलेन्द्रमहोदय भवान, कृपया वदति वा <tě> uh, भवान् भवान, भवन्तं भवन्तः भवतः भवन्तं भवन्तं द्वितीया विभक्तिः तत्र अम् इति श्रूयते महोदय द्वितीयान्तपदमस्ति तस्य अन्तिमे अम इति श्रूयते भवन्तम् भवतः अस्तु भवान् भवन्तः भवन्तं भवतः पुनः एकवारं भवान वदति वा कृपया सिङ्ग् ओके सो भवान भवन्तः देट् विल् बि वन् प्रेयर् फार् एकवचनी भवन्तः भवतः बहुवचनम् अस्तु अस्तु महोदय सम्यक् धन्यवादः uh, इदानीं श्रीवत्समहोदय uh, अत्र भवान् भवन्तः भवन्तं भवतः वाक्यानि रचयति वा कृपया प्रयत्नं करोमि um, um, भवान् किम् आं um, भवान् किं करोमि अम um, भवान् किं करोति सम्यक् भवन्तः बहुवचनानि भवन्तः किं करिष्य कुर्मः किं कुर्मः किं कुर्वन्ति किं कुर्वन्ति कुर्वन्ति यदि वयमस्ति चेत् कुर्मः आगच्छ कुर्मः भवन्तः किं कुर्वन्ति okay we Bhamad are asking so many people as just uh, sitting there we are asking them what are you all doing bhavanta kim purvanti okay agree me dvitiya vibhakti dvitiya vibhakti um bhavantah ah sorry okay. bhavantam um bhavantam ah kim ah करोमि करोति अहं तत्र द्वितीयान्तपदं कर्मपदं भवन्तम् इच्छामि भवन्तं वदामि एवम् अहं भवन्तम् अहं भवन्तं वदामि द्वितीयाविभक्तिभोचनं अहं भवतः वदामि सम्यक् इतिहासपदम् इत्युक्ते कर्मपदेन आगच्छति आङ्ग्लभाषायां भवन्तम् अहं वदामि भवान श्रूयते इदानीं श्रूयते श्रूयते भगिनि वदतु भवान् शिक्षकः अस्ति छात्रां श्रुण्वन्ति Hmm. भवन्तः शिक्षकाः सन्ति सर्वे hmm. भवतः नमस्कारः बहु सम्यक् बहु सम्यक् उत्तमम् उत्तमं भगिनी बहु उत्तमम् उत्तमम् उत्तमं ता, सम्यक् अस्तु अग्रिमे इदानीं भवान् भवन्तः भवन्तं भवतः पुल्लिङ्गिरूपाणि तथैव फ्रीलिङ्गरूपाणि अपि पश्यामः भवती भवती छात्रा अस्ति भवती का भवती छात्रा अस्ति भवत्यः छात्राः सन्ति भवत्यः का भवत्यः काः भवत्यः छात्राः सन्ति ओके सो दिस् इस् आन् फ्रीलिङ्गे भवती छात्रा अस्ति भवत्यः छात्राः सन्ति अहं भवतीं पृच्छामि भवती छात्रा अस्ति अहं भवतीं पश्यामि भवती छात्रा अस्ति अहं भवतीं पृच्छामि भवत्यः छात्राः सन्ति अहम् भवती अहं भवती भवतीः पृच्छामि अहं भवतीः पृच्छामि इदानीं कथम् भवति इति श्रीलिङ्गे प्रथमा विभक्ति एकवचनान्तरूपम् प्रथमा विभक्ति एव श्रीलिङ्गे बहुवचनान्तरूपं भवति भवत्यः द्वितीया विभक्ति भवतीं श्रीलिङ्गी भवतीम् एकवचनान्तरूपं श्रीलिङ्गी भवतीः बहुवचनान्तरूपं द्वितीया विभक्ति सो नौ वट् इस् दि टेबल् भवती लैक् so नदी नदी नद्यः नदीं नदीः भवती एतत् रूपं दीर्घ दीर्घ ईकार अन्तिमम् शब्द नदी चलती नदी नद नदी नदी प्रथमा प्रथमाती नदीती प्रथमाती विणा भगिनी एकवारं पुनः एकवारं वदति वा अवश्य भगिनी प्रथमविभक्ति एक एकवचनं भवति बहुवचनं भवत्यः द्वितीयविभक्ति एकवचनं भवतीं बहुवचनं भवतीः सम्यक् इदानीं वाक्यानि रचयति वा प्रयत्नं करिष्यामि भगिनी भवती गायकः अस्ति भवती भवत्या गाय पुनः एकवारं वदतु भवती भवती गायकी गायकी वा इति आगच्छति भवत्या ओके भवती गायिका अस्ति भवत्याः गायिकाः सन्ति बहु सम्यक् अनन्तरं द्वितीया अहं भवतीं शृणोमि अहम् अहं भवता अहं भवतीः शृणोमि बहु सम्यक् भगिनी बहु उत्तमः प्रयत्नः बहु बहु बहु, बहु उत्तमं धन्यवादः भगिनी धन्यवादः था। उत्तम अस्तु इदानीं वयं कुं कुर्मः वयं तत्र स्क्रीन् शेर् करोमि सेम् थिङ्ग् इन् अ टेब्लर् प् देट् अस् सिरिर् दे स्मृतवती तत् एकनिमिषं वा अस्तु दृश्यते स्क्रीन् दृश्यते वा पुनः एकवारं पूर्वस्मिन् सप्ताहे यद्वयं पठितवन्तः तस्य एकवारं पठनं कुर्मः अत्र वाणीभगिनी भवती पठति वा आम् आं महोदये अकारान्तः उल्लिङ्गः मयूरः शब्दः प्रथमाविभक्ति मयूरः एकवचनं मयूराः बहुवचनं द्वितीया विभक्ति एकवचनं मयूरम् Uh, बहुवचनं मयूरान् आकारान्तस्त्रीलिङ्गः बालिकाशब्दः प्रथमा विभक्तिः एकवचनं बालिका बहुवचनं बालिकाः तृतीया विभक्तिः एकवचनं बालिकां बहुवचनं बालिकाः ईकारान्तः स्त्रीलिङ्गः नदीशब्दः प्रथमाविभक्तिः एकवचनम् नदी बहुवचनं नद्यः तृतीया विभक्तिः एकवचनं नदी बहुवचनं नदीः अकारान्तः नपुंसकलिङ्गः पुस्तकं शब्दः प्रथमा विभक्तिः पुस्तकम् एकवचनं बहुवचनं पुस्तकानि द्वितीया एकवचनं पुस्तकं द्वितीय बहुवचनं पुस्तकानि सम्यक् <laughs> सम्यक् धन्यवादः धन्यवादः महोदय भवान् पठति वा अग्रिमे ओके okay. सर्वनामशब्दानां द्वितीयाविभक्तिप्रयोगः प्रथमविभक्ति पुलिङ्गे एकवचन् सः बहुवचन् ते द्वितीयाविभक्ति एकवचन् आ तं बहुवचन्तान् प्रथमविभक्ति स्त्रीलिङ्गे एकवचन सा बहुवचन्ताः द्वितीयाविभक्ति एकवचन स्त्रीलिङ्गे आ तां बहुवचन्ताः प्रथमविभक्ति प्रथमाविभक्ति स्त्रीलिङ्गे पुलिङ्गे एकवचने एषः बहुवचने एते द्वितीया विभक्ति पुलिङ्गे uh, एकवचने एतं बहुवचने एतान् प्रथमा विभक्तिस्त्रीलिङ्गे आकारान् एषा एकवचन बहुवचने एताः द्वितीया विभक्तिः एकवचन स्त्रीलिंगे बोड़न, एक बहुवचन बहुवचने प्रथमा विभक्तिविंग अहम बहुवचन व्वितयाभक्ति एक, एक वचन महुवचनेस्मा सम्यक् महोदय धन्यवादः धन्यवा धन्यवादः भगिनी श्याम्ला भगिनी अस्ति अस्ति पठि भवती पठति कृपया अग्रिमे हा अहं पठामि पठामि प्रथमाविभक्तिः भवान् भवन्तः द्वितीयाविभक्तिः भवन्तं भवतः विभक्तिः प्रथमा विभक्तिः तत् तानि द्वितीया विभक्तिः तत् तानि एतत् एतानि एतत् एतानि कः सर्वे सर्वं सर्वान् अस्तु भगिनि अनन्तरं पठिष्यामि सर्वविषये इदानीं तत् सन्देहः न भवेत् इति स्टेप् बै स्टेप् धन्यवादः भगिनि धन्यवादः धन्यवादः इदानीं त्रि त्रिविक्रममहोदयः अस्ति तत्र त्रिविक्रममहोदयः भवान् पठति वा आवरणे लिखितानां तथा आरभ्यं शब्दानां रूपाणि स्वीकरोतु अध्यापिकामहोदय न श्रूयते न श्रूयते तत्र मैक्रोफोन् मध्ये किं नप्ताहे ना। अपि तथैव भवति त्रिविक्रम वदति वक्तुं न शक्नोति इदानीम् अन्यैः अपि न श्रूयते अस्तु किं करणीयं सम्यक् न श्रूयते भगिनी परन्तु श्रूयते त्रिविक्रममहोदय एकवारं एक्सिट् कृत्वा पुनः एकवारम् आगच्छति वा पश्यामः प्रयत्नं कुर्मः अस्तु पश्यामः अस्ति त्रिविक्रममहोदय हा इदानीं प्रयत्नं करोतु पठतु न न श्वनिः एव खण्डिता जाता अस्तु किं करणीयं न जानामि अस्तु महोदय मायरा, मायरा वदति वा मायरा अस्ति तत्र वदति पठति वा नाम आवरणे लिखितानां कथम् आरभ्य ओके भवती ध्वनिमुद्रणं श्रुतवती वा गतसप्ताहे श्रुतवती वा ध्वनिमुद्रणं I might not understand what he said. Uh, Bhavati, Gata Shabta Hasya, Dvani Mudranam, Shrutavati Va, Sramadam Krutavati Va, Dvani Mudranam, recording, Shrutavati Va, Gata Shabta, mm. oh, last week, Shrutavati Va, yeah. yeah. no, no. <laughs> Uh, अद्य दिने किं करणीयमस्ति भवती एकवारं रेकार्डिङ्ग् शृणोतु जस्ट् लिसन् huh? टु द रेकार्डिङ्ग् ध्वनिमुद्रणं शृणोतु अनन्तरं सन्देहाः सन्ति चेत् कृपया माम ईमेल् द्वारा पृच्छतु सम्यक् वा ईमेल् huh? द्वारा पृच्छतु okay. अस्तु राधा भगिनी भवती पठति आवरणे लिखितानां आं भगिनि आवरणे लिखितानां शब्दानां द्वितीयविभक्तिरूपाणि लिखन्तु hmm. सः माम् आह आह्वयति तत्र अहं शब्दस्य द्वितीयान्तरूपं hmm. माम् आह्वयति सम्यक् अग्रिमे सा भवन्तं पश्यति सा भावती, जननी ताम पृच्छति त्वं तान् वदसि Uh, सैनिकाः देशाः रक्षन्ति सैनिकाः देशं सारी सारी देशं, देशं, देशं रक्षन्ति सा, सा भवतीः स्मरति uh, सर्वे माम पृच्छन्ति भवान् एतां जानाति किम् एतां जानाति किं जाता सह भवन्तं न जानाति बहु सम्यक् भगिनि उत्तमं धन्यवादः अग्रिमे रमणी भगिनी भवती पठति वा आं भगिनि <laughs> उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु एकनिमिषम् एकनिमिषं अत्र प्रश्ननिर्माणं कुर्वन्तु सो so, मोमेण्ट् वि प्रश्ननिर्माणम् इत्युक्ते अस्माकं मनसि तत् अवधानं भवेत् कः के कं कान् का काः काम काः किं कानि किं कानि पुल्लिङ्गी भवे चेत् कः के एकवचनान्तं बहुवचनात् द्विद्या कं कान् त्रिलिङ्गी भवे चेत् का काह, एकवचने बहुवचने कां काः द्विद्या विभक्ति न कुशकलिङ्गे किं कानि किं कानि कः के कम्कान् काकः कांकाः किं कानि किं कानि एवम् ओके नौ सः सत्यं वदति प्रश्नः कः सत्यं वदति वाक्यम् एषः संयमं करोति एष कः संयमं करोति सम्यक् कः संयमं करोति संयमम् इति यमनियमनम् इति अस्ति खलु नियमं संयमम् इति विल संयमं विलड् विलड् संयमं संयमं संयमः तस्य द्वितीयान्तपदं संयमं संयम संयमम् इति संयमः संयमं प्रथमा द्वितीय ओ प्रथमविभक्ति संय संय संयम संय संयमः संयमः एषः संयम संय संयमं करोति कः संयमं करोति योगी विभूतिं प्राप्नोति कः विभूतिं प्राप्नोति अहिंसकः वैरं त्यजति अहिंसकः पुल्लिङ्गि कः वैरं त्यजति साधकः इन्द्रियाणि निगृह्णाति साधकः पुल्लिङ्गि कः इन्द्रियाणि निगृहा निगृह्णाति दि निगृह्णाति निगृह्णाति UM <breeze> छात्रः पादान् प्रसारयति छात्रः mm. पुलिङ्गे कः mm. पादान् प्रसारयति mm. सा हठयोगप्रदीपिकां पठति सा mm. का हठयोगप्रदीपिकां पठति mm. सम्यक् वैद्यः नाडीः परिशीलयति वैद्यः पुल्लिङ्गे कः नाडी परिशीलयति वैद्यः वैद्यः नाडी द्विवारं च द्विवारं सः नियमान् पालयति सः पुल्लिङ्गे कः नियमान् पालयति अहं षट्कर्माणि करोमि अहं कम् अहम् अत्र अहम् इत्युक्ते प्रथमा विभक्ति एव कः षट् कर्माणि करोमि क्षम्यतां कः षट्कर्माणि करोति अहं षट्कर्माणि करोमि कः षट् अहं कानि अहं शतकर्माणि करोमि एवम् धन्यवादः भगिनी अत्र धन्यवादः वयं पठितवन्तः परन्तु अहं मन्ये पुनः एकवारं तस्य अध्ययनं वयं कुर्मः तत्र पठनं भवेत् तत्र अगस्ट् महोदय भवान् पुत्रः विषये यत् अपि दत्तमस्ति तत् पठतु वीणा वदतु वीणा भगिनी माता, मातायाः यत् सम्भाषणमस्ति तद् भवती पठतु अगस्ट् महोदय पुत्रः सम्भाषणं यत् अस्ति तद् भवान् कुत्र श्लोकः प्राकेट् वदतु श्लोकं वदतु श्लोकं वदतु हा इदानीं किं करणीयं किणा भगिनी अवस्तु महोदय अत्र वयं सम्भाषणसंस्कृतपठामः सम्भाषणे कीदृशी भाषाः तत् पश्यतु श्लोक वद्र तबोधन कहती यदि का आहयती तत्थ आहयती श्लोकम वजू प्रेम नेम भावया पुत्र श्लोक वद प्रयत् कर पुत्र श्लोक वजो अहं श्लोकं वक्तुं न शक्नोमि किमर्थं हा अत्र विना भगिनि किञ्चित् कोपेन किमर्थं किञ्चित् लैट् किञ्चित् कोपेन माता वदति किमर्थं तत् अवदेव खलु शक्नुं न शक्नोमि इति वदति पुत्र तत् माता किञ्चित् कोपेन किमर्थं वदतु किमर्थं शालां न गतवान् अहं भवन् अहं भवान् पाठयामि रूपं कथमस्ति यत्र वान् शब्दस्य रूपम् भवन्त भवान् प्रथमाविभक्ति पुल्लिङ्गी एकवचने प्रथमाविभक्ति भवान् तस्य द्वितीयाविभक्त्यारूपं कथं भवति भवन्तं भवन्तम् अहं भवन्तं पाठयामि ओके स पुत्रः किञ्चित् हठभावनया वदति अहं शालां न गतवान् अहं भवन्तं पाठयामि ओके हा अग्रिमे पुत्रः सत्यं भवती माम बहु सम्यक् बहु सम्यक् माता आं पाठयामि तत्र पुत्री अपि आगच्छति आग। आग। तत्र पुत्री अपि वीणाभगिनी भवती एव वदतु पुत्री अम्ब अम्ब अहम् अपि पाठयतु माम् अपि पाठयतु अम्ब मामपि पाठयतु पुत्री अपि वदति माता अस्तु भवान् अपि पाठयामि किं रूपं कथं भवति भगिनि अस्तु माता पुत्रीं वदति भवती ओके पुत्रीम् अस्तु माता पुत्रीमपि पाठयति अस्तु भवतीमपि पाठयामि अस्तु भवतीमपि पाठयामि अस्तु भवतीम् अपि पाठयामि अग्रिमे कदा पाठय कदा hmm, पाठयति प्रश्नार्थकस्तु कदा पाठयति हा माता इदानीं भवन्तः भवन्तं पाठयामि द्वितीया विभक्ति भवन्तं पाठयामि भवान् भवन्तः भवन्तं oh. भवतः इदानीं भवन्तं पाठयामि तत्र पाठयामि इति एक पाठयामि शुड् बि शुड् बि पाठयामि तत्र आ नास्ति अस्तु पुत्रः अनुजां कदा पाठयति अनुजा यङ्गर् सिस्टर कारान्त अनुजा ताम् माला मा अनुजा अनुजां सा अनुजा सा अनुजा ताम् अनुजाम् अनुजां कदा पाठयति मातां श्वः पाठयामि पुनः एकवारं वदतु सह ते तं तान् सा तः तां ताः एवं सो सा टु यू तां सोरि टु ह तां श्वः पाठयामि अनुजां कदा पाठयति तां श्वः पाठयामि एवमस्ति अवगतं सर्वेषाम् अवगमनम् अभवत् एव्रिबडिस् अण्डर्स्टू नो स्पष्टमस्ति न इदानीमपि सम्भाषणमस्ति तत् एव वयं कुर्मः अत्र पुनः एकवारं त्रिविक्रममहोदय पश्यामः त्रिविक्रममहोदय प्रयत्नं करोतु पुनः एकवारम् अधः एकं वदतु सम्यक् आवरणे इदानीं दृश्यते आपणे आभरणे विद्य विद्यमानानां शब्दानां गीतायाः गीता सम्भाषणं यत् अस्ति तत् भवान् पठतु मालायाः सम्भाषणं uh, मायरा भगिनी प्रयत्नं करोति वा रीड अस्ति वा तथा गिवन् फोर् मालाण्ड् त्रिविक्रम् विल् रीड् फोर् गीता अस्तु प्रयत्नं करोतु माला हा अहं ग्रा ग्रामं ग्र गत गतवती आसाम् किमर्थं प्रतिवर्षण मम पितामहः देवपूजां करोति अतः अतः अहं ग्रामं गतवती उत्तमम् उत्तमं अहं ग्रामे लीला लता च दृ दृष्टवती अहम् अपि पूजां कृतवती सह सम्भाष सम्भाषणं कृतवती बीज बीजरूप बीजपुरवृक्षम् आरुह्यं फलानि खाद खादितवती तत्र आरुह्यमिति नास्ति बीजपूरवृक्षम् आरुह्य फलानि खाद अग्रि खादितवती अस्तु हा अध्यापकः कः पाठं पाठितवान् अत्र यः इत्युक्ते अध्यापकः कं पाठं पाठितवान् कं पाठं पाठितवान् इति भवति ह्यः ह्यः अध्यापकः कं पाठितवान् कं पठं पाठितवान् कं पाठं पाठितवान् अस्तु त्रिविक्रम अध्यापकः पाठं न पाठितवान् अपि श्लोकं पाठितवान् किमस्ति तत्र श्लोकाः इति अस्ति एकः श्लोकः नास्ति तत्र श्लोकान् पाठितवान् एकः श्लोकः अस्ति ते श्लोकं पाठित पाठितवान् परन्तु तत्र बहवः श्लोकाः सन्ति अतः श्लोकान् पाठितवान् अस्तु एकवारं वदतु अपि अपि तु उत्तमम् अग्रिमे शाला कृषये सः प्रश्नः पृष्टवान् वा प्रश्नान् पृष्टवान् वा प्रश्नश्च प्रश्ना गीताश्ना पुष्टवा वयंरा उठव्य माला गायत्री कश आगती गायत्री कस्याम् आगतवती कश्याम, कश्याम् कश्याम आगतवती एड् इट्स् क्लाश्रूम् वर्ग् इति कस्याम् आगतवती गीता नूतनं चोलम् देखो ल क्या हम्म चलो पूरा नाम बोलम बोलम क्या या अध्यापकाः आशीर्वादं कृतवन्तः वयं वयम् अभिन अभिनन्दनं वचनं कृतवन्तः हा सा अध्यापिका अध्यापिकाः नमस्कृतवती ओके okay. अध्यापिकाः आशीर्वादं कृतवन्तः वयम् अभिनन्दवचनानि उक्तवन्तः बहु सम्यक् बहु सम्यक् द्विरिक्र महोदय मायरा वेरि नैस् वेरि नैस्तिपीठं गुड् गुड् इदानीम् अस्ति शैलेन्द्रमहोदय अस्तु पठति वा यो, योगाभ्यासे द्वितीय विबक्तिना उदाहरणानि युवकः प्राणायामं करोति योगी इन्द्रियं निग्रह्यति साध साधकः सत्यं वदति भक्तः मोक्षम् इच्छति शिष्यः योगं अभ्यस् अभ्यस्यतिवासनं शान्तिं हरति योगः रोगं नाशयति सः वायुं पूरयति अत्र अत्र, अत्र युवकः प्राणायामं करोति तत्र प्रश्नार्थ कथं भवति महोदय प्रश्नरूपेण युवकः किं करोति सम्यक् कह प्राणायामं काणायाम कौ प्राणायाम क्यवाद शैलेन्द्रमोद भारत महोदय आम पढ़ती अभ्यास एक वचने बहुवचने द्वितीयाविभक्तिप्रयोगः एतानि वाक्यानि पठन्तु वाक्यं भक्तः ध्यानं करोति प्रश्नः भक्तः किं करोति आचार्यः योगाभ्यासम् अवलोकयति प्रश्न आचार्यः कम् अवलोकयति अवलोकयति मीनिङ्ग् ओफ् अवलोकयति छात्रः प्राणान् पूरयति प्रश्न छात्राः छात्रः कान् पूरयति योगशिक्षकः मुद्रां करोति योगप्रश्न योगशिक्षकः काम करोति योगशिक्षकः का करोति वाक्यं योगः अस्मान् रक्षति प्रश्नः योगः कान् रक्षति वाक्यं त्वं बालिकाभ्यः योगासनं दर्शयति hmm. प्रश्नः त्वं बालिकाभ्यः किं द्र दर्शयति hmm. वाक्यं सः आसनानि प्रदर्शयति प्रश्नः सः कानि प्र, प्र, प्रदर्शयति सः कानि प्रदर्शयति वाक्यं बालकः नेतिसूत्रे नासिवाकायां वाकायां स्थापयति प्रश्नः बालिकः बालकः के वा नासिकायां स्थापयति अत्र के इति कथमागच्छति किमर्थं तत् के इति अस्ति के बहुवचने अग्रिमे तौ भानुं नमस्कुरतः नमस्कुरुतः नमस्कुरतः प्रश्नात् प्रश्नः तौ कं नमस्कुरतः अत्र तौ इत्युक्ते किं महोदय Um, तत् सः ते वयं कृतवन्तः परन्तु द्विवचनान्तरूपमस्ति तौ एकनिमिषं एकनिमिषं तत्र पूर्वस्मिन् वाक्ये तत्र जस्ट् uh, ऐ वुड् लैक् टु like करेक्ट् मैसेल्फ़् तत्र बालकः नेतिसूत्रे नासिकायां स्थापयति बालकः नासिकायां स्थापयति तत्तु सम्यक् परन्तु नेतिसूत्रे सूत्रम् इति अत्रापि सूत्रम् इति नपुसकलिङ्गे हा तु तत्र किं के कानि सूत्रं सूत्रे सूत्राणि तत् अपि न अपितु बहुवचनान्तरूपम् अपि तु अस्ति. द्विवचनान्तरूपमस्ति मम दोषः जाता, तत्र किं के एवं सूत्रं सूत्रे सूत्राणि एव में, अग्रिमे e e महिला प्राणायाम पाठयति प्रश्नः एषा के प्राणायामं पाठयति अत्र अपि एषा के प्राणायामं पाठयति एषा के हा अत्रापि किं भवति केन का के काः तत्र एषा महिले आके ए? माले मालां माले माला तत्र अत्र कर, करेक्षन् इस् रिक्वैर्ड् तत्र महिले इति अस्ति अत्र अपि द्विवचनान्तपदं महोदय महिले महिले इति अस्ति द्विवचनान्तपदम् महिले इति भवति तत् लास्ट् सेण्टेन्स् देह इण्ट्रोड्यूस् द्विवचनान्तपदानि तस्य पठनं वयम् अनन्तरं भवति तत्र लेटेस्ट् एकवश्यं फेमिलि एकवचनात् भारत्महोदय धन्यवादः धन्यवादः धन्यवादः अस्माकं यत् वेब्सैट् उपरि यत् अस्ति तत् तस्य अध्ययनं वयं समाप्तं न शृणोति Okay, Edanima and Kim Kuru Mahal, little exercise and then we will have a Subhashita Pathanam today. Subhashita Pathanam, after one exercise. Okay, now I will be uttering very very easy exam for you. Rapid ah. cry sort of. Now, I'll be uttering three sentences and you will be just uttering one single sentence. Three sentences from my side and one from your side. See the ratio. Okay, let us start. Anybody can unmute yourself. We'll have this for some time and then we'll go for Subhashita. Okay. Listen. Huh, listen. Aham. Aham. Ishwaram. Namami. अहम् ईश्वरं नमामि अहम् ईश्वरं नमामि ईश्वरः अस्ति ईश्वराः सन्ति अहम् ईश्वरं नमामि द फोर्त् सेण्टेन्स् फ्रम् युवर् सैड् वयं कण्टिन्यू न् नमाके ईश्वरः अस्ति ईश्वराः सन्ति अहम् ईश्वरं नमामि वयम् ईश्वराः ईश्वरान् नमामः ओके ओके अनन्तरं देशः अस्ति देशः अस्ति देशाः सन्ति देशः अस्ति देशाः सन्ति सैनिकः देशम् रक्षति सैनिकः देशम् रक्षति सैनिकाः कम्प्लीट् देशं रक्षाम् रक्षन्ति सैनिकाः देशान् रक्षन्ति ओके अनन्तरं वानराः सन्ति वानराः सन्ति शाखाः सन्ति वानराः सन्ति शाखाः सन्ति वानराः वानराः शाखाम् आरोहन्ति न वट् इस् द सिच्युवेशन् वानराः संति शाखाः संति परन्तु सर्वे वानराः एकां शाखाम् एव आरोहन्ति देट् इस् द सेण्टेन्स् विच् आन्सिङ्ग् वानराः शाखाम् आरोहन्ति न वानराः मर्कटाः ते मनसि किमपि आगच्छति चिन्तयतु सर्वे वानराः तत्र बहवः शाखाः सन्ति तो वानराः आरोहन्ति बट् नौ दे आर् दे वास् आन् नम्बर् आफ़् ब्राञ्चेस् कथं भवति वानराः शाखाम् आरोहन्ति इफ् देर् इस् जस्ट् वन् ट्वीक् नौ देर् आर् नम्बर् आफ् ब्राञ्चेस् वानराः कथं भवति कम्प्लीट् मै सेण्टेस् शाखा शाखाः स्त्रीलिङ्गी माला शाखा एवं खलु स्त्रीलिङ्गी प्रथमा विभक्ति माला मालाः मालां मालाः एव शाखा शाखाः शाखाम् शाखाः एव वाक्यं कथं भवति वदन्तु एकवारं पुनः वानराः शाखाः शाखाः शाखा फलमस्ति फलानि सन्ति फलमस्ति फलानि सन्ति Devika, Phalam Grunnati, Devika, Phalam Grunnati, she is just speaking of one simple fruit. Now, Shintayatun survey, there are a number of fruits and she is speaking of all of them. Devika, complete a sentence now. Phalam Grunnati. Ah, फलानि गृह्णन्ति किमर्थं तत्र फलानि एव आगच्छति प्रथमाविभक्ति वा तत्र प्रथमाविभक्ति वा सेविका फलानि गृह्णन्ति वाक्ये तु बहु सम्यक् अस्ति परन्तु तत्र फलानि इति प्रथमाविभक्ति वा द्वितीया विभक्ति बहुवचनं न ah, no, प्रथमाविभक्ति सेविका फलानि गृह्णति गृह्णाति तत्र द्वितीयान्तपदमागच्छति यतोहि तत् किमस्ति कर्मपदेन आगच्छति सेविका कानि गृह्णाति सेविका फलानि गृह्णाति तत्र कर्मपदम् तर्पन्धौ सम्भाषण एव तत्र द्वितीयान्तपदमागच्छति फलानि गृह्णन्ति सम्यक् अस्तु गृहं पत्रम् अस्ति पत्रम् अस्ति लिखामि पत्रम् अस्ति अहं पत्रं लिखामि नौ रिमेनिङ्ग् टु सेण्टु कमोन् बहुवचने पत्रं पचतु पत्राणि पत्राणि सन्ति सम्यक् कर्मपदेन अहं पत्राणि लिखामि लिखामि समान एव तत्र पत्रं पत्राणि प्रथमा पत्रं पत्राणि द्वितीया एवं भवति ओके नास् वन् कविता अस्ति कविता अस्ति कविता इत्युक्ते पोयम् इति अस्ति कविता अस्ति कविताः सन्ति कविता अस्ति कविताः सन्ति वयं वयं कविताम् पठामः वयं कवितां पठामः आफ्टर् कम्प्लीटिङ्ग् वन् पोयम् लैक् कविताशब्दस्य बहुवचनानि रूपं वदतु वयं कविताः कविताः माला माला एव अहं नदीं पश्यामि नदी अस्ति अहं नदीं पश्यामि इदानीं मेक् सेण्टेन्स् आफ़् इन् प्लूरल् फार्म् टु सेण्टेन्सेस् यदीक् प्लूरल् वयं नद्यः पश्यामः नदी पश्यामि back to us na sumami na din bagini nas nasruyate nasruyate nasruyate everybody is unmuted bagini we cannot hear you we cannot otherwise, hear you otherwise uh, you all have to please mute otherwise we cannot hear okay okay so our uh, uh, survey mute kurwantu i'll call by names okay क्षम्यता एव्रीबडी प्लीस् म्यूट् युवर् शेल्फ़् शृणोतु इदानीं शृण्वन्तु नदी अस्ति श्रूयते श्रूयते श्रूयते नदी अस्ति मेक् प्लूरल् फार्म् आफ़् इड् वीणा भगिनी मेट्प्लुरल् नदी अस्ति नदीः सन्ति एनिबडी हेल्फ नदी अस्ति नद्यः सन्ति नद्यः सन्ति नदी नद्यः नदी अस्ति नद्यः सन्ति ओके नौ द नेक्स्ट् पार्ट् अहं नदीं पश्यामि अहं नदीं पश्यामि जस्ट् इमेजिन् देवर् नर् आफ् रीवर्स् देर् अहं पश्यामि So, aham, Kim Bhavati? N Nadeem. No, I'll call the name. Shri, what's more there? Aham, what are you? Nadeem. Aham, Nadeem, Pashyami. Okay, if there is only one river, I can say, Aham, Nadeem, Pashyami. But there are a number of rivers flowing, and I'm watching all of them. So? अहं नदीः पश्यामि ओके सो दिस् इस् अे हौ टु लर्न् बै मेकिङ्ग् डिफ़्रेण्ट् मनसि मनसा एव तस्य चिन्तनं भवेत् इति मम प्रयत्नः विल् हाव् मोर् एण्ड् मोर् प्रक्टिस् पुनः एकवारम् एतस्य एव अध्ययनं वयं कुर्मः मनसि एव तत्र सः ते तं ता एषः एते एतम् एतां लैक् देट् जस्ट् किप्न् रिकालिङ्ग् सः सः वनम् उपवसति सः वनम् उपवसति सः वनम् उपवसति इमेजिन् सः सः एकः एव अस्ति तत्र बहवः जनाः सन्ति चेत् कथं भवति रम्य भगिनी कथं भवति सः वनम् उपवसति ते mm -hmm. ते वनम् उपवसन्ति बहु वनं ते वनम् उपवसन्ति बहु सम्यक् धन्यवादः धन्यवादः सेवकः सेवकः सेवकः वस्त्रं प्रक्षालयति श्याम्ला भगिनी सेवकः वस्त्रं प्रक्षालयति सेवकः वस्त्रं पालयन्ति वस्त्रं प्रक्षालयति बहुवचने सेवकः वस्त्रं प्रक्षालयन्ति सेवकः वस्त्रं प्रक्षालयन्ति तत्र सेवकः वस्त्रं वस्त्रं प्रक्षालयन्ति भवति नो चेत् सेवकाः वस्त्रं प्रक्षालयन्ति सेवकः वस्त्रं प्रक्षालयति सेवकाः वस्त्रं प्रक्षालयन्ति सेवकः वस् प्रक्षा वस्त्राणि प्रक्षालयति सेवकाः वस्त्राणि प्रक्षालयन्ति तद् समानमेव वस्त्रं वस्त्राणि वस्त्रं वस्त्राणि एवं भवती अवगतं वा तव भगिनी स्पष्टमस्ति वा स्पष्टमस्ति भगिनि अस्तु hmm, hmm. अस्तु अनन्तरं किमस्ति तत् ओगस्ट् महोदय ओगस्ट् महोदय कृषकः <laughs> कृषकः अस्ति मेक्फ्लुरल् भगिनी कृषकः फार्मर् कृषकः कृषकः अस्ति मेक्फ्लुरल् कृषकाः अस्ति कृषकः अस्ति कृषकाः सन्ति कृषकं किं करोति कृषकः किं करोति कृषकः क्षेत्रं करिष्यति पाम इस् अ पाम क्षेत्रं कर्षतिमिङ्ग् एक्टिविटीस् आोयिङ्ग् ओन् कृषकः क्षेत्रं कर्षति इदानीं कृषकाः सन्ति वाक्यपरिवर्तनं करोतु चेञ्ज् द चेञ्जेज् कृषकाः क्षेत्रं सायरा बिटिया मायरा बेटा अनम्यूट करो जरा इदानीम् अष्टमस्ति वा कृषकः क्षेत्रं कर्ष्यति स्पष्टमस्ति मम ध्वनि कृषकः क्षेत्रं करिष्यति कर्षति कर्ष कर्ष इति कर्षति परिवर्तनं करोति बहुवचने कृषकाः ऐम् जस्ट् इण्ट्रोड्यूसिङ्ग् न्यू न्यू वर्ड् सो देट् वी केन् मेक् अवर् सेल् फेमिलियर् वित् सम्यक् ओके चिन्ता मास्तु उत्तममस्ति धन्यवादः नौ लास्ट् सेवेन् मिनिट्स् लेट् गो फोर् सुभाषितम् अस्तु कः वा का पठितुमिच्छति सुभाषितम् कः वा का पठितुमिच्छति सुभाषितम् ध्वनिः श्रूयते वा श्रूयते श्रूयते कः पठितुम् इच्छति का पठितुमिच्छति अहं पठामि पठ मन्दं, मन्दं असंतं, असंतं, सततं हस्तं हरन्तं वेणुं नितान् नितान्तं mm -hmm. मधुवादयन्तं mm -hmm. बालं अत्र किमस्ति वयं सर्वे द्वितिया द्वितीयाविभक्तेः विषये अध्ययनं कुर्मः तत् एतत् सुभाषितमस्ति सर्वस्मिन् स्थलेषु द्वितीयान्तपदानि उपयुज्य सुभाषितस्य रचना भवति मन्दं हसन्तं प्रभयालसन्तं जनस्य चित् सतत वेणुता मधुवादय मनसा स्मरा मुकुंदम मनसा स्मरामि मनसा तय मै मै मैंड मनसा मैंड इंस्ट्रुमेटल के तृतीया विभक्ति मनसा स्मरा मनसा स्मरा अहम स्मरामि aham kam smarami aham mukundam smarami aham kidrusham mukundam manasa smarami aham balam mukundam manasa smarami puna aham kidrusham balam mukundam manasa smarami aham mandam hasantam balam mukundam manasa smarami sid smile on the face मन्दं हसन्तं मन्दं हसन्तम् इत्युक्ते किम् लैट् स्मैल् लैट् अहं मन्दं हसन्तं बालं मुकुन्दं मनसा स्मरामि पुनः कीदृशं बालं मुकुन्दं प्रभया लसन्तं प्रभया लसन्तं लस् इत्युक्ते दट् लस्टर् uh, आभा प्रभा दर्टिक्युलर् औरा प्रभया हस् हसन्तं बालं स्मरामि कं बालं मुकुन्दं जनस्य चित्तं सततं हरन्तं बालं मुकुन्दं जनस्य चित्तं जनस्य चित्तं सततं हरन्तम् इत्युक्ते किं वदतु कोऽपि चित्तचोर् इति अस्ति खलु मनोहारि हरणं कृतम् अत्र जनस्य चित्तं सततं हरन्तं बालं मुकुदं वेणुं नितान्तं मधुवादयन्तं बालं निकुन्दं वेणुं वेणु वेणु इत्युक्ते तस्य वेणुमिति द्वितीयान्तपदं नितान्तं मधु मधुवादयन्तं मधु अपि द्वितीया मधु मधुनि मधूनि मधुमधुनि मधूनि एवं रूपाणि भवति तत् मधु इति द्वितीया वेणु वेणुवादनम येणो नाद मधु मधुनाद वेणु निता मधुवादय बालं मुकुंदम मनसा स्मरा अहम स्मरा अहम मनसा स्मरा अहम कंस्मरा अहम बालम मुकुंदम मनसा स्मरा अहम कम बालम मनसा स्मरा अहं मन्दम हसन्तं बालं मुकुन्दं मनसा स्मरामि पुना कं बालं मुकुन्दं मनसा स्मरामि प्रभयालसन्तं बालं मुकुन्दं मनसा स्मरामि पुना कं जनस्य चित्तं सततं हरन्तं बालं मुकुन्दं मनसा स्मरामि पुनः कं बालं मुकुन्दं मनसा स्मरामि वेणुं नितान्तं मधुवादयन्तं बालं मुकुन्दं मनसा स्मरामि सर्वेषु स्थलेषु तत्र द्वितीयान्तपदानि उपयुज्य उत्तमा रचना कृता वर्तते मन्दम् हसन्तम् प्रभयालसन्तम् जनस्य चित्तम् सततम् हरन्तम् वेणुम् निना नितान्तम् वा, वादु मधुवादयन्तम् बालम् मुकुन्दम् मनसा स्मरामि इति सुभाषितम् एतदस्ति अस्माकम् द्वितीयान्तपदानि तृतीयान्तविभक्तेः अध्ययनम् अभ्यासम् एवं ओके सो वन्स् गेट् अवर्मिलियर् वि द्वितीय विभक्ति इट् विल् बी वेरि ईजि फ़र् अस् टु ऐडेण्टिफै पदानि सो विर नो फेमिलियर् वित् प्रथमा विभक्ति द्वितीया विभक्ति यस् ओर् नो यस् ओर् नो न पुनः एकवारं प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु प्रश्नाः सन्ति वा सन्देहाः सन्ति वा सन्देहाः सन्ति चेत् नास्ति चेत् वयं समापयामः अस्तु शान्तिमन्त्रम् कोऽपि कापि वदति वा अहं वदामि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमा भवेत् ॐ शान्तिा शान्तिः धन्यवादः पुन धन्यवादाः धन्यवादः पुनर्ध्यवादः धन्यवादाः